श्रीहरये नमः अथ त्रिंशोऽध्यायः श्रीसुक उवाच अन्तर्हिते भगवती सहसैव व्रजाङ्गनाः अतप्यंस्तम् अचक्षणा करिण्य इव यूतपं गत्यानुरागस्मितविभ्रमेक्षितैर्मनोरमालापविहारविभ्रमैः आक्षिप्तचित्ताः भ्रमदारमापतेस्तास्ता विशिष्टा जगृहुस्तदात्मिकाः गतिस्मितप्रेक्षणभाषणादीक्षो प्रियाप्रियस्य प्रतिरूढमूर्तयः असावहं द्वित्यबलास्तदात्मिका न्यवेतिषु कृष्णविहारविभ्रमाः गायन्त्यवुच्चैरमु वेव संहता विचिक्युरुन्मत्तकवद्वनात्वनम् प्रच्छु आकाशवदन्तरम्भेर् भूतेषु संतं पुरुषं वनस्पतीन् दृष्टो बः कच्चित् अश्वत्थप्लक्ष न्यग्रोतनो मनः नन्तः सोनोर्गतो हृत्वा प्रेमहासावलोकनैः कच्चित् कुरबगाशोकनागपुन्नागचम्पकाः रामानुजो मानिना इतो दर्पहरस्मितः कच्चित्तुलसीकल्याणि गोविन्दचरणप्रिये सखत्वालिकुलैर्भिभ्रदृष्टस्तेधि प्रियोच्युतः मालत्यदर्शिवः कच्चित् मल्लिके जातियूतिके प्रीतिं वो जनन् यातः करस्पर्शेन माधवः सूतप्रियालपनशासनकोविधार जम्पर्गभिल्वगुलाम्रकदम्बनीपाः येन्े परार्त भवकायमुनोपकूलाः सं सन्तु कृष्णपदवीं रहितात्मनाम् नः किं ते कृतं क्षितितपोभत केशवाङ्घ्रे स्पर्शोत्सवोत्पुलकिताङ्गरुहैर्विभासे अभ्यङ्ग्रिशम्भव उरुक्रम विक्रमा त्वा आहो वराघवपुषरिरम्भेन अप्येन पत्युगभत प्रियये कात्रये द्वन्द्ंसके सुनिर्निर् सुनिर्वृतिमच्युतो भगान् कान्ताङ्गशङ्कुचकुङ्कुमरञ्जितायाः कुन्दस्रचकुलपतेरि कवातिगन्धः बाहुं प्रियां सवुपधाय गृहीतपद्मो रामानुजस्तुलसि किम्वाबिनन्दति अन्वी अन्वीयमानैकवस्तरवः पृच्छते मा लता भागुन् अप्याश्लिष्टा वनस्पतेः नूनं तत्करजः स्पृष्टा विप्रत्युत्पुलकान्यहो इत्युन्मत्तवचो गोप्यकृष्णान्वेषणकातराः लीलाभगवतस्तास्ता ह्यनुचक्रुस्तदात्मिकाः कश्चाचित्पूतनान्त्याक् कृष्णायन्त्यभिभत्स्तनं तोकायित्वा रुदत्यन्यां पदाहं च कटायतीं दैत्यायित्वा जगाराण्यां एका कृष्णार्भभावनां रिङ्गयामासकाभ्यङ्घ्रे कर्षन्ती घोषणिस्वनैः कृष्णरामायि ते द्वे तु काश्चन वत्सायतीं हन्ति चान्यां तत्रैका तु बकायतीम् आहूय दूरगाय त्वत्कृष्णस्तमनुकुर्वतीं वेणुं क्वणन्तीं क्रीडन्तीं अन्याः संसन्ति साद्वितीं कश्याम् यस्य चलन्त्यापरा ननु कृष्णोऽहं पश्यत गतिं ललितामिति तन्मनाः मा भैष्टवातवर्षाभ्यां तत्राणं विहितं मया इत्युक्त्यैकेन हस्तेन यतन्त्युन्निदधेम्बरम् आरुह्यैकापधाक्रम्य शिरस्याः परा नृप दुष्टाहे गच्छ जातोऽहं कलानां ननुदण्डदृक् तत्रैको वाच हे, तत्रै हे गोपाधावाग्निं तद्धान्यया स्रजा काश्चित्तन्वीतत्र वुलूकले भेजे शुद्रुक्पिधायास्यम्भेजे भीतिविडम्बनम् एवं कृष्णं भृश्चमाना बृन्दावनलतास्तरू व्यचक्षतः वनोद्देशे पदानि परमात्मनः पदानि व्यक्तमेतानि नन्दसूनोर्महात्मनः लक्षन्त्ये हि ध्वजाम्बोज वज्राङ्कुशयभादिभिः तैस्तैपदैस्तत्पदवीम् अन्विच्छन्त्योग्रधो बलाः वध्वा पदैषु प्रोक्तानि विलोक्यार्ता समब्रुवन् कस्याः पथानि चैतानि यातायानन्दसूनुना अंसन्यस्तप्रकोष्ठाय करणो करिणायत अनयाराधितो नूनं भगवान् करीरीश्वरः दन्या अहो अमी आल्यो गोविन्दाग्रि अब्जरेण वहा यान् ब्रह्मेशो रमा देवी धतुर्मूर्नि अगनुत्यये तस्या अमुनि न क्षोभं कुर्वन्त्युच्चैः पदानि यत् यैकाबहृत्य गोपीनां रघो भुङ्क्तेऽच्युताधरम् न लक्ष्यन्ते पदान्यत्र तस्या नूनं तृणाङ्कुरैह्ये किद्यत् सुजान्दाङ्कृतलां वन्दिन्ये प्रेयसीं प्रियः इमान्यधिगमग्नानि पदानि वहतो वधूं गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः अत्रावरोपिता कान्ता पुष्पहेतोर्महात्मना अत्र प्रसूना वचयः प्रियार्थे प्रेयसा कृतः प्रपदाग्रमणे पश्यता सकले पदे त्वत्र का विध्या तानि चूडयता कान्ताम् उपविष्टमिकध्रुवं रेमेतया चात्मरत आत्मरामोऽप्यखण्डितः कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् इत्येवं दर्शयन्त्यस्ताक्षेरुर्गोप्य विचेतसहां यां गोपीं साचमेने च मेने तदात्मानं वरिष्ठं सर्वयोषितां हित्वा गोपिकामयानामामौसौ भजते प्रियः ततो गत्वा वनोद्देशं दृप्ता केशवमब्रवीत् न पारयेहं चलितुं नय मां यत्र ते मा आरुह्यतामिति ततः शान्तर्धते कृष्णस्तावधू अन्वथप्यथ हानातरमणप्रेष्टक्वासि दास्यास्ते कृपणायामे सखे दर्शय सन्निधिम् अन्विच्छन्ध्यो भगवतो मार्गं गोप्यो विदूरतः तया कथितमाकर्ण्यमानप्राप्तिं च माधवात् अवमानं च विस्मयं परमं ययुः ततो विशन्वनं च यावत् विभाव्यते तमः प्रविष्टमालक्ष्य ततो तन्मनस्कास्तदालापास्तद्विशेषास्तदात्मिकाः तद्गुणानेव गायन्त्यो नात्माघाराणि सस्मरुः पुनः पुलिनमागत्य काळिध्या कृष्णभावनाः समवेता जगु कृष्णं तदा इति श्रीमद्भागवते महापुराणे दशमस्कन्ते पूर्वार्ते रासक्रीडायां कृष्णान्वेषणं नाम द्रिंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथ महराजकी जय